रि ओम् श्री सीता रामचन्द्राभ्यद्वाल्मीकि रामायणे अयोध्याखण्ड सर्गः राज्ञो दशरथस्य दशरथस्य इतरासाम् राज्ञीनाम् विलाप श्रीरामस्य कौसल्याया भवने गमनम् ताम् प्रति स्ववनवासवृत्तान्तनिवेदनम् कौसल्याय मूर्च्छा भुरि पतनं च श्रीरामेण उत्थापितायास्तया तस्यावलोकयन् च विलापः तस्मिन् पुरुष व्याघ्रे निष्क्रामते कुतञ्जलो आतशब्दो महाञ्जन्ये श्रीरामन्तपुरे तदा कुत्र स्वचोदित पित्रा सर्वस्यान्तः पुरस्य च गतिशा सराम प्रवत्ति कौसल्या जननिया वर्त सदा तथा वर्तते स्मास जन्म प्रभृति राघव न क्रुध्यशक् रोधनी क्रुद्धा प्रसादय सर्वान् हिस्सों प्रवत्ति अबुद्धिर्बत नो राजाय जीवलोकम् च रत्ययम् योगतिम् परित्यजति राघवम् इति सर्वा महिषस्ता विभत्सा इव धेनवः पतिमातु कृषुश्चापि श्वस्वनम् चापि पुरोर आठशब्दी पति पुत्र शु का सतुवा व्यालता साममस्तु भृशमास्तु निश्वस नव कुंजर जगाम स ही तो भ्रात्र मातुअपुरशी सो पैशत्षं त्रुद्ध बरम पूजित उपविष्टम् गृहद्वारि तिष्ठतश्चापरान् बहु दृष्ट्वैव तु तदा रामम् ते सर्वे समुपस्थिताः जयेन जयताम् श्रेष्ठम् वर्धयन्ति स्मराघवम् प्रविश्य प्रथमाम् कक्ष्याम् द्वितीयायाम् ददर्श ब्राह्मणान् वेद सम्पन्नान् प्रणम्य रामस्तान् वृद्धान् तृतीयायां ददर्शयो बाला च वृद्धा च द्वार रक्षण तत्परः वर्धयित्वा प्रदृष्टास्तात् प्रविश्य च गृहम् श्रियः नवेदयन्त त्वरितम् राम मातुः प्रियम् तदा कौसल्यापि तदा देवी रात्रिम् स्थित्वा समाहित प्रभाते च करोत् पूजा विष्णु पुत्र हितैषिणी साक्षो मसनारुष्टम्रत परायण अग्निं ज्योति स्म तदा मन्त्रवत् कृतमङ्गला प्रविश्य तु तदा रामो मातु तत्र आवयन्तीं हुताशनम् देवकार्यनिमित्तम् च तत्रापश्यत्स मुद्यतम् दध्यक्ष घृतम् चैव मोदकान् हविषस्तथा लाजान् माल्यानि शुक्लानि पायसन् कृतरम् तथा समेधये पूर्णकुम्भां च ददर्च रघुनन्दनः तां शुक्लक्षो मा तर्पयन्तीम् ददर्शोभिः देवताम् वरवर्णिनीम् साचिरश्चात्मजम् दृष्ट्वा मातृ नन्दनमागतम् अभिचक्रामसंवृष्ट किशोरम् बड्वा यथा स मातरम् उपक्रान्ताम् राघव परिष्वक्तश्च बाहूभ्याम् अवघ्रातश्च मूर्धने म्बुवाच दुराधर्षम् राघवम् सुतमात्मनः कौसल्या पुत्र वात्सल्यात् इदं वचः वृद्धानां धर्मशीलानां राजर्षीणाम् महात्मनं तप्नु ह्यायुश्च कीर्तिं च धर्मं चाप्युचितं कुले सत्यप्रदीन्यम् पितरम् राजानं पश्य राघव अद्यैव त्वाम् स्वधर्मात्मा युवराज्येऽभिषेक्ष्यति दत्त मानसमालभ्य भोजनेन निमन्त्रितः मातरम् दाघव किञ्चित् प्रसार्याञ्जलिम् अब्रवीत् स स्वभावे विनीत च गौरवाच्च प्रस्थितो दण्डकारण्यम् अप्रष्टुम् उपचक्रमे देवी नूनम् न जानीषे महद्भयमुपस्थितम् इदम् तव च दुःखाय वैदेह्या लक्ष्मणस्य च गमिष्येदन्नकारण्यम् किम्नेनासनेन मे विष्टरायसनयोग्यो हि कालोऽयम् मामुपस्थितः चतुर्दश हि वर्षाणि वत्स्यामि विजने कन्नमूल परे जीवन् हित्वा मुनि वदामिषम् भरताय महाराजो यौवराजम् प्रयच्छति मां पुनर्दण्डकारण्यम् विवासयति तापसं च वर्षाणि वत्स्यामि विजनेवने वने आसेवमानो वन्यानि फलमूलै च वर्तयन् सा सालस्य यष्टि परशुना वने पपात सहसा देवी देवतेव दिवश्च्युतामु दुःखोचिताम् दृष्ट्वा पतिताम् कदलीमिव रामस्तुपयामास मातरम् गतचेतसम् उपावृत्योत्थिताम् दीनाम् वणवामिव वहिताम् पासु गुण्ठित सर्वाङ्गी विममर्ष च प्राणिना सा राघवम् उपासीनम् असुखाता सुखोचिता उवाच पुरुष व्याघ्रम् उपशृण्वन्ति लक्ष्मणे यदि पुत्र न दायेथ मम शोकाय राघव नस्मा स्म दुःखमतो भूय पश्ययम् मप्रक एव हि वन्ध्याय शोको भवति मानसः स प्रियास्मीति सन्तापो न ह्यन्यपुत्र विद्यते न दृष्टपूर्वम् कल्याणम् सुखम् वा पतिपौरुषे अपि पुत्रे वि इति रामास्थितं मया सा बौन्यमनोज्ञानि वाक्यानि हृदयच्छिरम् अहं श्रोष्ये स अवराणाम् परा अतो दुःखतरम् किम् नु प्रमदानाम् भविष्यति मम शोको विलापश्च यादृशोऽयम् अनन्तकः त्वयि सन्निहितेऽप्येवम् अहमासम् निराकृतः किम् पुनः प्रेषिते तत् ध्रुवम् मरणमेव निगृहीतास्मि भर्त्यु नित्यम् असम्मत परिवारेण कैकेय्या समावाप्य अथवा वरा यो हि मां सेवते कश्चित् अपि वाप्य नुवर्तते कैकय्या पुत्रमन्वीक्ष्य स जनो नाभिभाषते नित्यक्रोधतया तस्या कथम् नुखरवादित कैकेय्या वदनम् द्रष्टुम् पुत्र शक्ष्यामि दुर्गत दश सप्त च वर्षाणि प्राप्तस्य तव राघव अतीतानि प्रकाशन्त्य मया दुःख परिक्षयम् तरक्षयम् महद्दुःखं न स्वहे सहितुं चिरत् विप्रकारं स पत्नीनाम् एवं जीर्णापि राघव अपश्यन्ति तव मुखम् परिपूर्ण शशिप्रभम् कृपणा वर्तयिष्यामि कथम् कृपणजीविका उपवासै च योगै च बहुभि च परिश्रमो दुःखसंवर्धितो मोघम् तम् हि दुर्गतया मया स्थिरम् धूहृदयम् मन्ये यन्न धीर्यते प्रावृषीव महा कृत्यम् भूलं न वाम्भस ममैव नूनम् मरणम् न विद्यते न चावकाशोति यमक्षये मम यदन्ते कोद्यैव न माम् जिहषति प्रसयसिंहो हृदतिम् मृगीमिव स्थिरम् हि नूनम् हृदयम् न मायसम् न भिद्यते अनेन दुःखेन च देहमर्पितम् ध्रुवम् ह्य काले मरणं न विद्यते इदं तु दुःखम् यदनर्थ जा जानीमे व्रतानि दानानि च संयमाशये तपश्च ता तप्तम् यदपस्य काम्यया सुनिष्फलम् बीजमिवोक्त मुशरे यदि ह्य काले मरणं यदृशय लभेत कश्चित् गुरुदुःख कश्चिदये गताह मध्यैव परेत संसदम् विना त्वया धेनुरिवात्मजेन वै अथापि किं जीवितमाद्य मे वृथा त्वया ृशम सुख ममर्षिता तदा बहु विरलाप समीक्ष राघवम्प शाम्य सा महत् सुतमेव बद्धमवेक्ष किन्नरी इत्यार्थे श्रीमद् रामायणे वाल्मीकि अधिकाव्ये अयोध्याखण्डे विञ्च सर्ग हे श्रीसीतारामचन्द्रार्पणमस्तु